अथ श्रीमहाभारते आदिपर्वणि सप्तनवत्यधिकशततमोऽध्यायः द्रुपद उवाच अभूत्वैवं वचनं ते महर्षे मया पूर्वे यति तं संविधातुं न वैशक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानं दिष्टस्य ग्रन्थिरनिवर्तनीयस्वकर्मणा विहितं कृतम् निमित्तम् हि वरैकहेतोस्तदे वेदमुपपन्नम् विधानम् यथैव कृष्णोक्तवतीम् पुरस्तान्नैकम् पतिं भगवान् ददातु स चाप्येवं वरमित्यब्रवीत्ताम् देवो हि वेत्ता परमम् यदत्र यदि चैवम् विहितः धर्मो धर्मो वा नात्र गृह्णन्त्विमे विधिवत् पाणिमस्यायथोपजोषम् विहितैषाम् हि कृष्णा वैशम्पायन उवाच ततोऽब्रवीद्भगवान् धर्मराजमद्यैव पुण्याहमुतः वः पाण्डवेय अद्य पौष्यम् योगमुपैति चन्द्रमाः पाणिम् कृष्णायास्त्वम् गृहाणाद्य पूर्वम् ततो राजा यज्ञसेनः स पुत्रो जन्यार्थमुक्तम् बहु तत्तदग्र्यम् समानयामाससुतां च कृष्णाम् ततस्तु सर्वे सुहृदो नृपस्या समाजग्मुःसहिता मन्त्रिणश्च द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधानाः ततोऽस्य विस्तीर्णपद्मोत्पलभूषिताजिरं बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितं ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथा विधिप्रभो क्रमेण सर्वे विविशुस्ततः सदो